श्रीहर्ये नमः अतद्वितीयोऽध्यायः उवाच एवं ते भगवद्भूता यमधूताभिभाषितम् उपधार्यात तान् राजन् प्रत्याहोर्नय को विधाः विष्णुधूतावूचो अहो कष्टं धर्मदृशाम् अधर्मस्पृशदे सभां यत्रा दण्ड्येषु अपापेषु दण्डो यै द्रियते वृथा प्रजानां पितरो ये च सास्तारसाधवः समाः यदि शरणं प्रजाः यद्यथाचरति इतरस्तद्यते स कुरुते लोकस्तदनुवर्तते यस्याङ्गेशिर आधाय लोकस्वपिति निर्वृतः स्वयं धर्ममधर्मं वा न पशुः सकतं कृतमैत्रेमचेतनम् विश्रम्भणीयो भूतानां सगृणो दृग्धुमर्हति अयं हि कृतनिर्वेशो जन्मकोट्यं हसामपि यद्व्याजहारविभसो नाम स्वस्त्ययनं हरेः एतैनैव ह्यघोनोऽस्य कृतं शातघनिष्कृतं यथा नारायणाये ते जगात चतुरक्षरम् तेनः मित्रद्र ब्रह्मः गुरुतल्पगः स्त्रीराजपितृगो हन्ता ये च पातकिनोपरे सर्वेषामप्यघवताम् इदमेव सुनिष्कृतं नाम व्याकरणं विष्णोर्यतस्तद्विषया मतिहे न निष्कृतैरुतितैर्ब्रह्मवाधिभिः तथा विशुद्धयति यघवान् व्रतादिभिः यथा हरेर्नामपधैरुदाहृतये तथोत्तमश्लोकगुणोपलम्भगम् नैकान्तिकं तद्धि कृतेभि निष्कृते मनः पुनर्तावधि चेत सत्पते हरे गुणानुवाद खलु सत्त्वभावनः अथैनम् मापनयथ कृता यदौ सौ भगवन्नाम म्रियमाणसमग्रहीत् साङ्केत्यं पारिहास्यम् वा तोभम् हेलनमेव वा वैकुण्ठनामगृहम् शेषा गहरं विदुः पतितक्स्खलितो भग्न सन्दष्टस्तप्त आगतः हरित्यवसेनाः पुमान्नार्हति यातनां गुरूणां च लघूणां च च लघूनि प्रायश्चित्तानि पापानां ज्ञात्वोक्तानि महर्षिभिः तैस्तान्यघानिपूयन्ते तभोधानजभादिभिः नाधर्मजं तद् हृदयं तदभीषाङ्घ्रिसेवया अज्ञानात् तथवाज्ञानात् उत्तमश्लोकनाम यत् सङ्कीर्तितमघं पुंसो दहेते दो यथा नलहा यथा गतं वीर्यतमम् उपयुक्तं यद् दृष्टया अजानतोऽप्यात्मगुणं कुर्यान् मन्त्रोऽप्युदाहृतः श्रीशुक उवाच त एवं धर्मं भागवतं नृप तं यां यपासान् निर्मश्च विप्रं अमुचन् इति प्रत्युदिता यां या दूता यात्वा यमराज्ञे या या यथा सर्वम् आचषक्षूररिन्दमः द्विजपाशाद्विनिर्मुक्तो गदबीप्रकृतिं गतः भवन्दे शिरसा विष्णो किङ्करान् दर्शनोत्सवः तं विवक्षोमभिप्रेत्य महापुरुष किङ्कराः सहसा पश्यतस्तस्य तत्रान्तर्धतिरेनघ अजामिलोप्यताकर्ण्य धूतानां यमकृष्णयोः धर्मं भागवतं शुद्धं त्रैविध्यं च गुणाश्रयं भक्तिमान् भगवत्यासो माहात्म्यश्रवणाथरेः अनुतापो महानासे स्मरतो शुभमात्मनः अहो मे परमं कष्टम् अभूतविजितात्मनः येन विप्लावितं ब्रह्म वृषल्यां जायतात्मना दिङ्मा विगर्हितं दुष्कृतं कुलगज्जलं हित्वा बालां सतीं योहं सुरभामसतीमघाम् वृद्धावनाथौ पितरो नान्यभन्तु तपस्विनौ अहोमयाधुना त्यक्तौ अग्रुतज्ञेन नीचवत् सोऽहं व्यक्तं पतिष्यामि नरके बृसधारुणे धर्मज्ञाकामिनो यत्र विन्तयमयातनाः गिमितं स्वप्न आहो स्वेत् साक्षाद्दृष्टमिहाद्भुतं क्व याता अद्यते अतत्ते क्व कथा सिद्धास्सद्वारश्चारुदर्शनाः भद्वापासैरद्धो भुवः अतापि मे दुर्बकस्य विपुतोत्तमदर्शने भवितव्यं मङ्गलेन येनात्मा मे प्रसीदति क्वचाहं कितवः पापो ब्रह्मघ्नो निरपत्रपः क्वच नारायणेत्येतत् भगवन्नाम मङ्गलं सोऽहं तथा यतिष्यामि यतचिदेन्द्रियानिलः यथा सर्वभूतसुहृत्सान्तो मैत्रकरुण आत्मवान् मोचये ग्रस्तमात्मानं योषिन्मयात्ममायया विक्रीडिधो ययैवाघं क्रीडामृग इवा दमः ममाहमिति देहोधौ हि त्वामित्यार्थधीर्मतिं दास्ये मनो भगवति शुद्धं तत्कीर्तनादिभिः श्रीशुक उवाच इति जातसु निर्वेध क्षणसङ्घेन साधुषो गङ्गाद्वारम् उपेयाय मुक्तसर्वानुबन्धनः स तस्मिन् आसीनो योगमाश्रितः प्रत्याहृतेन्द्रियघ्रामो युयोजमन आत्मने ततो गुणेभ्य आत्मानं वियुज्य आत्मसमाधिना युयुजे भगवद्धाम्नि ब्रह्मणि अनुभवात्मने यह्युपारदधिस्तस्मिन् अद्राक्षीत्पुरुषान् पुरः उपलभ्योपलब्धान् प्राक् वन्दे शिरसाध्विजः हित्वा कलेवरं तीर्थे गङ्गायां दर्शनाधनु सद्यस्वरूपं जग्रुखे भगवत्पाश्ववर्तिनाम् साकं विहाय सा विप्रो महापुरुषकिङ्करैः हैमं विमानमारुह्य ययौ यत्र श्रियः पतिः एवं स विप्लावितः सर्वधर्मा धास्याः गर्ह्यकर्मणा निपात्यमानो निरये कथ व्रथ सद्यो विमुक्तो भगवन्नाम गृह्णन् नातः परं कर्म निबद्धक्रन्तनं मोक्षतां तीर्थपधानुकीर्तनात् न यत्पुनः मनो रजस्तमोऽभ्यां कलिलं ततोऽन्यतं य एवं परमं गुह्य इतिहासमघापहं शृणुयात् श्रद्धया यश्च भक्त्यान् अकीर्तयेत् न वै स याति निशितोऽयमकिङ्करैः या यद्यप्यमङ्गलो मर्द्यो विष्णुलोके महीयते म्रियमाणो हरेर्नाम गृणन्पुत्रोपचारितम् अजामिलोप्यघाधाम किं पुनः श्रद्धया गृणन् इति श्रीमद्भागवते महापुराणे षष्ठस्तन्ते अजामिळोपाख्याने द्वितीयोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा सद्गुरुनाथ महाराजकी जय